अथ नवतितमः सर्गः सहता श्वो महातेजा भूमौ तिष्ठन्निषाचरः इन्द्रजित्परमक्रुद्धः सम्प्रज्ज्वालतेजसा तौ धन् विनो जिघाम् वने गजवृषा वि वा भर्तारम् न जहुर्युद्धे सम्पतन्तस्ततस्ततः ततस्तान् राक्षसान् सर्वान् हर्षयन् रावणात्मजः स्तुन्वा नो हर्षमाणश्च इदम् वचनमब्रवीत् तमसा बहुले नेमाः संसक्ताः सर्वतो दिशः नेहविज्ञायते स्वो वा परो वा राक्षसोत्तमाः भवन्तो युध्यन्तु हरीणाम् मोहनाय अहम् तु रथमास्थाय आगमिष्यामि संयुगे तथा भवन्तः कुर्वन्तु यथेमे हि वनौकसः न युध्येयुर्महात्मानः प्रविष्टे नगरम् मयि इत्युक्त्वा रावणसुतो वञ्चयित्वा वनौकसः प्रविवेशपुरीम् लङ्काम् रथहेतोरमित्रः स रथम् भूषयित्वाथ रुचिरम् हेमभूषितम् प्रासाशिशरसंयुक्तम् युक्तम् परमवाजिभिः अधिष्ठितम् हयज्ञेन सूतेनाप्तोपदेशिना मारुरोहमहातेजा रावणिः समितिञ्जयः सराक्षसगणैर्मुख्यैर्वृतो मन्दोदरी सुतः निर्ययौ नगराद्वीरः कृतान्तबलचोदितः सोऽभिनिष्क्रम्य नगरादिन्द्रजित्परमौजसा अभ्ययाज्रवणैरश्वैर्लक्ष्मणम् स विभीषणम् ततो रथस्थमालोक्य सौमित्री रावणात्मजम् वानराश्च महावीर्या राक्षसश्च विभीषणः विस्मयम् परमम् जग्मुर्लाघवात्तस्य धीमतः रावणिश्चापि सङ्क्रुद्धो रणे वानरयूथपान् पातयामास बाणौघैः शतशोऽधसहस्रशः स मण्डलीकृतधनुरावणिः समितिञ्जयः हरीनभ्यः नत्क्रुद्धः परम् लाघवमास्थितः ते हरयो नाराचैर्भीमविक्रमाः सौमित्रिम् शरणम् प्राप्ताः प्रजापतिमिव प्रजाः रतः समरकोपेन ज्वलितो रघुनन्दनः चिच्छेदकार्मुकन्तस्य दर्शयन् पाणिलाघवम् सोनत्कमाय सज्जक्रे व तद्यक्ष्मणिता अथैनम छिन्नधन्वा नशी विष विषोपम दिव्याधोरसी सौमित्री रावणि पंचभर तेत का निर्भि महाका निपेतुर्धरणी बाणार इव महोरगा स छिन्नधन वुर वक्वणि जग्राहका मुक श्रेष्ठ दृढ़ जं बलवण सद्य परं लाघवि न वा वर्ष शर वर्षा वर्षाणी पुंदर मुक्त शर वर्षमरी दम सन्दर्शयामासतत रावणिम् रघुनन्दनः असम्भ्रान्तो महातेजास्तदद्भुतमिवाभवत् ततस्ताम् राक्षसान् सर्वाम् स्त्रिभिरेकैकमाहवे अविध्यत्परमक्रुद्धः शीघ्रास्त्रम् सम्प्रदर्शयन् राक्षसेन्द्रसुतम् चापि बाणौघैः समताडयत् सोऽति विद्धो बलवता शत्रुणा शत्रुघातिना असक्त प्रेशयामासम बहूंशराबाणिच्छेदपर वीर सारथेर चरणेथिन नो रथ सतम शिरोजहारधर्मात्मा भल्लेनतपर्वण असूतास्ते हास्त्र रथ मुहुर विक्लवा मंडल्य तदद्भुत अमर्षवशमापन्नः सौमित्रिर्दृढविक्रमः प्रत्यविध्यर्थयांस्तस्य शरैर्वित्रासयन् रणे अमर्षमाणस्तत्कर्म सुतोरणे दिव्याधदशभिर्बाणैः सौमित्रिम् तममर्षणम् ते तस्य अभेद्य कवचम् मत्वा लक्ष्मणम् रावणात्मजः ललाटे लक्ष्मणम् बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित् अविध्यत्परमक्रुद्धः शीघ्रमस्त्रम् प्रदर्शयन् तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः प्रणाग्रे समरश्लाघी त्रिशृङ्ग पर्वतः स तथाप्यर्दितो बाणैराक्षसेण तदा मृधे तमाशु प्रतिविव्याधलक्ष्मणः पञ्चभिः शरैः विकृष्येन्द्रजितो युद्धे वदने शुभकुण्डले लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ अन्योन्यम् जघ्मतुर्वीरौ विशिखैर्भीमविक्रमौ ततः शोणित दिग्धाङ्गौ लक्ष्मणेन्द्रजिता बुभौ रणेतौ तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ घोरैर्विव्यधतुर्बाणैः कृतभावाबुभोजये ततः समरकोपेन संयुतो रावणात्मजः विभीषणम् त्रिभिर्बाणैर्विव्याधवदने शुभे अयोमुखैस्त्रिभिर्विद्वा राक्षसेन्द्रम् विभीषणम् एक तस्मै दृढतरम् क्रुद्धो जघानगदया विभीषणो महातेजा रावणेः स दुरात्मनः सहताश्वादमप्लुत्य रथा निहतसारथेः अथ शक्तिम् महातेजाः पितृव्यायमुमोचः तामापतन्तीम् सम्प्रेक्ष्य सुमित्रानन्दवर्धनः चिच्छेदनिशितैर्बाणैर्दशधापातयद्भुवि तस्मै दृढतनुः क्रुद्धो हताश्वायविभीषणः वज्रस्पर्शसमान् पञ्च ससर्जोरसिमार्गणान् ते तस्य कायम् भित्त्वा तु रुक्मपुङ्खा निमित्तगाः बभूवर्लोहिता दिग्धा रक्ता इव महोरगाः स पितृव्यस्य सङ्क्रुद्ध इन्द्रजिच्छरमाददे उत्तमम् रक्षसाम् मध्ये महाबलः तम् समीक्ष्य महातेजा महेशम् तेन संहितम् लक्ष्मणोऽप्याददे बाणमन्यद्भीमपराक्रमः कुबेरेण स्वयम् स्वप्ने यद्दत्तममितात्मना दुर्जयम् दुर्विषह्यम् च सेन्द्रैरपि सुरासुरैः तयोस्त्रधनुषी श्रेष्ठे बाहुभिः परिघोपमैः विकृष्यमाणे बलवत् क्रौञ्चा विवचुकू ताभ्याम् तु धनुष्यश्रेष्ठे सम्भितौ सायकोत्तमौ विकर्ष्यमाणौ वीराभ्याम् वृषम् जज्वलतु श्रिया तौ भासयम् तावाकाशम् धनुर्भ्याम् विशिखौच्युतौ मुखेन मुखमाहत्य सन्निपेत तु रोजसा सन्निपातस्तयोश्चासीच्छरयोर्घोररूपयोः स धूमविस्फुलिङ्गश्च तज्जोऽर्दारुणोऽभवत् तौ महाग्रहसङ्काशावन्योन्यम् सन्निपत्य च सङ्ग्रामे शतधायातौ मेदिन्याम् चैव पेततुः शरौ प्रतिहतौ दृष्ट्वा तावुभौ ब्रीडितौ व्रीडितौ जातरोषौ च लक्ष्मणेन्द्रजितौ तदा सुसंरब्धस्त्व सौमित्रिरस्त्रम् वारुणमाददे रौद्रम् महेन्द्रजिद्युद्धेऽप्यसृजद्युधिनिष्ठितः तेन तद्विहितं शस्त्रम् वारुणं परमाद्भुतम् ततः क्रुद्धो महातेजा इन्द्रजित् समितिञ्जयः आग्नेयम् सन्दधे दीप्तम् सलोकम् सङ्क्षिपन्निव सौरेणास्त्रेण तद्वीरो लक्ष्मणः पर्यवारयत् अस्त्रम् निवारितं दृष्ट्वा रावणिः क्रोधमूर्च्छितः आददे निशितम् बाणमासुरम् शत्रुदारणम् तस्माच्चापाद्विनिष्पेतुर्भास्वराः कूटमुद्गराः शूलानि च भुषुण्ड्यश्च गदाः खड्गाः परश्वधाः तद्दृष्ट्वा लक्ष्मणः सङ्ख्ये घोरमस्त्रमथासुरम् अवार्यम् सर्वभूतानाम् सर्वशस्त्रविदारणम् माहेश्वरेण द्युतिमाम्स्तदस्त्रम् प्रत्यवारयत् तयोः समभवद्युद्धमद्भुतम् रोमहर्षणम् गगनस्थानि भूतानि लक्ष्मणम् पर्यवारयन् भैरवाभिरुते भी भीमे युद्धे वा नररक्षसा भूतैर्बहुभिराकाशम् विस्मितैरावृतम् बभौ ऋषयः देवा गन्धर्भगरुडोरगाः शतक्रतुम् पुरस्कृत्य ररक्षुर्लक्ष्मणम् रणे अथान्यम् मार्गणश्रेष्ठम् सन्दधे राघवानुजः हुताशनसमस्पर्शम् रावणात्मजदारणम् सुपत्रमनुवृत्ताङ्गम् सुपर्वाणम् सुसंस्थितम् सुवर्णविकृतम् वीरः शरीरान्तकरम् शरम् दुरावारम् दुर्विषहम् राक्षसानाम् भयावहम् आशीविषविषप्रख्यम् देवसङ्घैः समर्चितम् येन पुरा देवासुरे युद्धे वीर्यमान हरिवाहनः अथैन्द्रमस्त्रम् सौमित्रिः संयुगेष्वपराजितम् शरः श्रेष्ठम् धनुः श्रेष्ठे विकर्षन्निदमब्रवीत् लक्ष्मीवान् लक्ष्मणो वाक्यमर्थसाधकमात्मनः धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि पौरुषे इत्युक्त्वा बाणमाकर्णम् विकृष्यतमजिम्मगम् लक्ष्मणः समरे वीरः ससर्जेन्द्रजितम् प्रति ऐन्द्रास्त्रेण समायुज्य लक्ष्मणः परवीरः तच्छिरः तपनीयनिभम् भूमौ ददृशेरुधिरोक्षितम् हतस्य निपपाताथ धरण्याम् कवची सशिरस्त्राणो विप्रविद्धशरासनः चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः हृष्यन्ते निहते तस्मिन् देवा यथा अथान्तरिक्षे देवानामृषीणाम् च महात्मना जज्ञेऽथ जय सन्नादो गन्धर्वाप्सरसामपि पतितं समभिज्ञाय राक्षसी सा महाचमूः मध्यमाना दिशो भेजे हरिभिर्जित काशिभिः वानरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः लङ्कामभिमुखाः सस्रुर्भ्रष्ट सञ्ज्ञाः प्रधाविताः दुद्रुवुर्बहुधा भीता शतशो दिशः त्यक्त्वा प्रहरणान् सर्वे पट्टिशासि परश्वधान् केचिल्लङ्काम् परित्रस्ताः प्रविष्टा वानरार्दिताः समुद्रे पतिताः केचित् केचित् पर्वतमाश्रिताः हतमिन्द्रजितम् दृष्ट्वा शयानम् चरणक्षितौ राक्षसानाम् सहस्रेषु न कश्चित् प्रत्यदृश्यत यथास्तङ्गत आदित्येनावतिष्ठन्ति तथा तस्पति राक्षसास्ते गताशा शातरश्मिवादिर्वाण इव पावक बभूवस महाबास्तविता प्रशापीडा बहुलो विनि प्रहर्षवाभूवलोक पति राक्षसेंसुते तर्षक्रो भगवान्हर्षि जगामनिहते तस्मिन् राक्षसे पापकर्मणि आकाशे चापि देवानाम् शुश्रुवे दुन्दुभिः स्वनः मृत्यद्भिरप्सरोभिश्च गन्धर्वैश्च महात्मभिः ववर्षः पुष्पवर्षाणि तदद्भुतमिवाभवत् प्रशशामहते तस्मिन् राक्षसे क्रूरकर्मणि शुद्धा आपोनभश्चैव जहृषुर्देव आजग्मुः पतिते तस्मिन् सर्वलोकभयावहे ऊचुश्च सहितास्तुष्टा देवगम् धर्वदानवाः विज्वराः शान्तकलुषा ब्राह्मणा विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम् क्ष्वेडन्तश्च प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः लब्धलक्षारघुसुतम् परिवार्योपतस्थिरे लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः लक्ष्मणो जयतीत्येव वाक्यम् विश्रावयम्स्तदा अन्योन्यम् च समाश्लिष्य हरयो हृष्टमानसाः चक्रुरुच्चावचगुणा राघवाश्रयसत्कथाः तद सुकरमथाभिवीक्ष्य हृष्टाः प्रियसुहृदो युधि लक्ष्मणस्य कर्म परममुपलभन् मनःप्रहर्षम् विनिहतमिन्द्र रिपुम् निशम्य इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डेनवतितमः सर्गः